शातधारमुत्थसमक्षीयमाणं विपश्चिदं पितरं वक्त्वानाम् मेळिं मदन्तं पित्रोरुपस्थेतं रोदसी पिपृतं सत्यवाच शातधारमुत्थसमक्षीयमाणं विपश्च चिदं पितरं वक्तवानाम् मेळिं मदन्तं पित्रोरुपस्थेतं रोदसी पिपृतं सत्यवाचम् शतधारमुत्थसमक्षीयमाणं विपश्चिदं पितरं वक्तवानाम् मेळिं मदन्तं पित्रोरूपस्थेतं रोदसी पिपृतं सत्यवाचम्